मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायम् तर्टिसिक्स् लोभासुरवरप्राप्तिवर्णनम् श्रीगणेशाय नमः दक्ष उवाच माहात्म्यं यच्छ्रुदं मुख्यं चतुर्थी महद कृतकृत्यश्च तेनाहम् संजादो मुनिसत्तम अधुना वदमाहात्म्यं लोभासुरनिबर्हणे गजाननस्य योगीश्च चरित्रं सर्वसिद्धितं मुद्गल उवाच पुरातन पुरातनभवं प्रभो सर्वसिद्धिप्रदं दक्षश्रवणेनन संशयः एकदा शैलवर्येदु कैलासे शङ्करस्थिदः पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः तत्रा जगामपौलस्थ्यकुबेरो निधि संयुतः प्रणम्य गिरिजायुक्तं शङ्करं पुरतस्थिदः समीपे शङ्करस्यैव गत्वा चामरसंयुतः अस्येवतमःत्मानं भक्तियुक्तेन चेतसा अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनन्दिनीं रूपेणाप्रतिमां सर्वा वयवै शोभनैर्युधा साक्षान्मायामयीं शक्तिं मोहयुक्तो बभूवः कामबाणाभिभूदः सन्नपश्यत्तां सुविह्वलः सकामदृष्टिसंयुक्तं पश्यन्तं तं धनातिभं दृष्ट्वा कोपः समायुक्ता बभूवे शङ्करप्रिया क्रोधेन वक्रनेत्रं स ज्वालयामास तत्क्षणाद कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् अधिविह्वलगात्रत्वात् प्रास्कन्धद्वीर्यमुत्तमं धनपश्चात्रपुत्रोऽभूत्पपात शोभयायुतः ततः स लज्जया युक्तः प्रणनाम महेश्वरीं नियम्यात्मानमानिन्द्यतुष्टावविधैस्तवैः ततः सा शङ्करेणैव सान्द्विदा जगदम्बिका पिङ्गाक्षं तं चकारापि पुत्रभावप्रदर्शिनी जगदम्बा लोभनार्थं कुबेरोभूत् समुद्यतः मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रदापवान् लोभ एव समाख्यादम् नाम तस्य द्विजैस्ततः सङ्गृह्य तं गृहं देवो धनदः कुबेरभवने संस्थं लोभं तं नारदो मुनिः ज्ञात्वा गान वीणागानपरायणः तारं पादाल पादालसंस्थं तं दानवानां हितैषिणम् इन्द्रेण निर्जितं ज्ञात्वा नारदः प्रययौ तारःसमुद्दिदो विप्रं प्रणनाम मुदायुधः पप्रच्छापूज्यवृत्तान्तं दानवानां हिदवहम् तार उवाच इन्द्रेणाकं जिदो विप्र दानवा मर्दिदा भृश्यम् अधुना किमु तद्वदमे तद्वद मे नारद उवाच अलकायां कुबेरस्य पुत्रो भोद्वीर्यपादः लोभस्तत्र समागत्य हरत्वं त्वं पुत्रमादराद तम्पालय महाभाग तेनते ते वाञ्छितं महद भविष्यदि मम तस्माध्वजः कुरु एवमुक्त्वा महायोगी नारदोऽदर्हितो भवद तारस्महर्षितों मेनेश कृतकृत्यतां मायया दानवाधीशस्त्वलकायां जगामः गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमद लोभम् केनचिदागत्य कृतं ज्ञात्वा धनाधिपः न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजं तारपुत्रं समानीय पालयामास हर्षतः बालक्रीडनकैर्युक्तं तं धृष्ट्वा विस्मितोऽभवद उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् तलप्रहारवेगेन दारुणां बिभिदेशिलां एवं नानाविधं कर्मस्य दृष्ट्वा दानवोत्तमाः हर्षयोक्ता बभूवुस्ते मेनिरे कृतकृत्यदाम् ततः पञ्चमवर्षे स चकारव्रतबन्धनं वेदानध्यापयामास शुक्रशिष्यैर्महाबलः स आसुरीं महामायां सर्वदेव विमोहिनीं विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगो तथ प्रणम्य विप्रेन्द्रं शुक्रं सर्वविदाम्बरं पप्रच्छ सर्वदम् पूर्णमुपायं लोभ आदराद तथ पञ्चाक्षरीं विद्यां ददौ तस्मै महामुनिः शैवीं विधियुधां लोभस्तं प्रणम्यय यौवनम् तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः जपं चकारभावेन निराहारपरायणः भस्माङ्गलेपसंयुक्तशैव मार्गपरायणः तोषयामास यत्नेन शङ्करं सर्वदं परं येवं तपसि लोभः संस्थितो बहुवासरं ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् दिव्यवर्ष प्रसन्नशङ्करः प्रभुः आययौ तं वरं दातुं पार्वत्या सह शूलभृत समागतमहेशानम् न बुबोधस दानवः तदस्थं जलमाश्रित्य शम्भुशक्तं चकारः तदशम्भुं समालोक्य हर्षयुक्ते न च दशा प्रणम्यादा प्रणम्यादाबुद्धिदो दानवाधिपः लोभासुर उवाच धन्यं मेद्यतपो मन्द्रो धन्यौ मे जनकौ प्रभो जन्मज्ञानादिकं सर्वं येन दृष्टो महेश्वरः किं स्तौमि महेशान साक्षाद्ब्रह्मसनादनं तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मदिः नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः शङ्कराय शिवायैव ह्यनन्दगुणराशये त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे निर्गुणाय गुणानां ते चालकाय नमो नमः अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज सृष्टे पात्रे जहर्त्रे त्रिधारूपाय वै नमः अकर्तुमन्यथाकर्तुम् कर्तुम् शक्ताय ते नमः सदा मोहविहीनाय मृदाय सततं नमः स्वाधीनाय परेशाय सहजे खेलकारिणे शूलहस्ताय देवानाम् पदयेते नमो नमः तुभ्यं भस्मलेपकराय वै दिगम्पराय सर्वेभ्यः सर्वदाय नमो नमः एवं स्तुत्वा महेशानम् तूष्णीम् भावेन संस्थितः लोभा सुरप्रसन्नात्मा साश्रुकः स कृताञ्जलिः तमुवाच महादेवो वरं वृणु हृदीप्सितं दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तमं त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनं भविष्यदि न सन्देहो यः पठिष्यति दैत्येन्द्रश्रावयिष्यदि वानरः श्रोष्यते सलभे सद्यो सदं जगादमहासुरः हर्षेणोऽथुल्लनेत्रश्च भक्त्या विनयसंयुधः लोभासुर उवाच वरदोसि यदि त्वं च तदा भक्तिं च दे दृढां देहिराज्यं महादेवब्रह्माण्डस्य विशेषतः नानैश्वर्यसमायोक्तमारोग्यादिसमन्वितं मनसीप्सितमेवं मे सिध्यदुत्वदनुग्रहाद मनोवाणीमयं यच्च मृत्युर्णमे भवेद सदानन्दसमयोक्तं मां पुरुष्व कृपानिधे लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः शङ्करस्तपसा बद्धस्तद्धेदि तमुवाचः कैलासस्तो बभूवः लोभासुरप्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्धे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षत्रिशोध्याय